आत्मानमव्ययं चैव प्रकृतिं प्रभवं प्रभुं पुरुषं विश्वकर्माणं सत्त्वयोगं ध्रुवाक्षरम् अनन्तमचलं देवं हंसं नारायणं प्रभुं धातारमजमव्यक्तं यमाहु परमव्ययं कैवल्यं निर्गुणं विश्वमनादिमजमव्ययम् पुरुषः स विभुः कर्ता सर्वभूतपितामह धर्मसंवर्धनार्थाय प्रजज्ञेऽन्धकवृष्णिषु अस्त्रज्ञौ तु महावीर्यौ सर्वशास्त्रविशारदौ सात्यकिः कृतवर्मा च नारायणमनुव्रतौ सत्यका धृदिकाच्चैव जज्ञातेऽस्त्रविशारदौ भरद्वाजस्य च स्कन्दम् शुक्रमवर्धत महर्षेरुग्रतपसस्तस्माद् द्रोणो गौतमान्मिथुनम् जज्ञे शरस्तम्बाच्छरद्वतः अश्वत्थाम्नश्च जननी कृपश्चैव महाबलः अश्वत्थामा ततो जज्ञे द्रोणादेव महाबलः तथैव धृष्टद्युम्नोऽपि साक्षादग्नि समद्युतिः वैताने कर्मणि ततः पावकात् वीरो द्रोणविनाशाय धनुरादाय वीर्यवान् तत्रैव वेद्याम् कृष्णापि जज्ञे तेजस्विनीशुभा विभ्राजमाना वपुषा बिभ्रति रूपमुत्तमम् <coughs> प्रह्लादशिष्यो नग्नजित् सुबलश्चाभवत्ततः तस्य प्रजाधर्महन्त्री जज्ञे देवप्रकोपनात् गान्धारराजपुत्रोऽभूच्छकुनि सौबलस्तथा दुर्योधनस्य जननी जज्ञातेऽर्थ विशारदौ कृष्णद्वैपायनाज्जज्ञे धृतराष्ट्रो जनेश्वरः क्षेत्रे विचित्रवीर्यस्य पाण्डुश्चैव महाबलः धर्मार्थकुशलो धीमान् मेधावी धूतकल्मषः विदुरः शूद्रयो नौ द्वैपायनादपि